दृष्ट्वैव सचतां धीमांश्चक्रमे चारुहासिनीं दिव्यां तां वासवीं कन्यां रम्भोरुं मुनिपुङ्गवः सङ्गमं मम कल्याणि कुरुष्वेत्यभ्यभाषत सा ब्रवीत् पश्य भगवन्पारावारे स्थितान्दृषीन् आवयोर्दृष्टयोरेभिः कथं तु स्यात्समागमः एवं तयोक्तो भगवान्निहारमसृजत्प्रभुः येन देशः स सर्वस्तुतमोभूतैवाभवत् दृष्ट्वा सृष्टं तु निहारं ततस्तं परमर्षिणा विस्मिता सा भवत्कन्या व्रीडिता च तपस्विनी सत्यवत्युवाच विद्धि मां भगवन्कन्यां सदा पितृवशानुगां त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ कन्यात्वे दूषिते वापि कथम् शक्ष्येद्विजोत्तमा गृहम् गन्तुम् ऋषे चाहम् धीमन्न स्थातुमुत्सहे एतत् सञ्चिन्त्य भगवन् विधत्स्व यदनन्तरम् एवमुक्तवतीं तान्तु प्रीतिमान् ऋषिसत्तमः उवाचमत्प्रियम् कृत्वा कन्यैव त्वम् भविष्यसि वृणीष्व च वरम् भीरुयम् त्वमिच्छसि भामिनि वृथाहिनप्रसादो मे भूतपूर्वः शुचिस्मिते एवमुक्तावरं वव्रे गात्रसौगन्धमुत्तमम् स चास्यै भगवान् प्रादान् मनसः काङ्क्षितम्भुवि